ञ्जुष्टो वाचस्पतयेते विवाक् यद्वाचो मधुमत्तस्मिन्माधास्वाहासरस्पर्त्यैस्तो मधुं समर्थयगायत्रेण रथन्तरम् बृहद्गायत्र वर्तते यस्ते दर्शस्कन्धति यस्ते अगुंशर्बाहुच्युतो भिषणयोरुपस्था अब्भर्योर्वाभर्यस्तपरित्रा कृतमिन्द्रायतञ्जुहोमि यो द्रब्स अहुंसः पतितः पृथिव्याम् परिभापात् पुरोडाशात्करम्भात् धानासो मान् मन्सिन इन्द्रशुक्रा स्वाहा कृतमिन्द्रायतञ्जुहोमि मधुमागङ्गिन्द्रियावान् स्वाहा कृतः पुनरप्येति देवान् दिवः पृथिव्याः पर्यन्तरिक्षात् स्वाहा अध्वर्यर्वावृत्तिजाम् प्रथमो विद्यते तेन स्तोमो योक्तव्ययित्याहुर्वाग्रेगा अग्रये सुजगा देवेद्भ्यो य सोमयिरसे प्राणान् पशुषु क्रियात्यामुखे युनचिवास्तु वा ये तद्यज्ञस्य क्रियते यद्ग्रहान् ्यच्च पुनरेत्योपतिष्ठते यज्ञो वे विष्णु यज्ञमेव गर्विष्णात्पन्नान्तमः शर्म यच्छ सहत्या प्रेधारामधश्च न उत्सङ्गः कृते अक्षिरमित्याहय देवा श्रयानश्चोपतिष्ठाप्याययति अग्निनायवश्चोषमेव दिवे दिवे यशतम् वेदवत्तमम् वो मागुम् अग्नेऽभिमागुम् अस्मि यज्ञो निर्वत्सखासदमिह प्रमर्ष्यः हिणावागुम् एषो मधुरप्रजावान् बुद्धः स्वभावान् केवलः तन्नः स्तुदीपमथपोषयत्मदेव त्वष्टर्विरराणस्य स्व यतो वीरः कर्मण्यः सुदक्षो युक्तग्राभाजायते देवकामः शिवस्पष्टरिहागरि विभःपोषमुतत्मना यज्ञे यज्ञेन उदवरङ्गलोकः सुभरोगयोधा सृष्टिवीयो जायते देवकामः प्रजान्तष्टाविश्यदुनाभिभस्मे देवानामप्येदुपाथः प्रणो देव्या नो दिवः सकम् सरस्वदस्तनय्यो विश्वजरिषदः क्षेमहि प्रजामिषम् एते सरस्वपूर्मयो मधुमन्तो घृतस्तुतः एषान्ते सुम् नमीमहे यस्य व्रतम् पशभोयन्ति सर्वे यस्य व्रतमुपतिष्ठन्तापः यस्य व्रते पुष्टिपधर्न्यष्टस्तकम् सरःस्पन्तमवसे भुवेम युज्यगम् सुपर्णम् वयसम् बृहन्तमपाम् गर्भम् वृषभमोषधीनाम् अभेमताष्ट्या दर्तयन्तकुम् सरःस्वन्तमवसेभुवेम श्रीवाजप्रतुष्टुचे जुषस्व हव्यमाहुतम् प्रजान्तेनस्त्वम् गुरुः सुषोमारी तस्यै विश्वक्रिये हविश्विहोतम इन्द्रम् गो विश्वदस्परेन्द्रन्नरः हसितवर्णा हरयस्तु पर्णामिहोपसानादिवमुत्पतन्ति ताववर्त्राणि वर्तादि पृथिवीभिलैर्विद्यते हिरण्यकेशो रजसोऽपिधाय हनिर्वादयि वध्यगीमान् श्रीभ्राजा उषसो नवेदायशस्पतीरपस्य पो न सत्याः आदे सुपर्णा अभिनन्तये वै कृष्णो नो नाम प्रभो यदीतम् शिवाभ्यन्नस्मयमानाभिनाघात्पतन्तिमिहस्तनयम् चभ्रा आद्रेव विद्यम् निमादिवत्सन्नमातासि शक्ति ृष्टिरसद्ये पर्वतश्चिन्महि वृद्धोऽपि भारिवश्चित्सानुदयज तस्वदेव यत्क्रेण समरुतृष्टिमन्तापयुव सद्यो भवद्भे अभिक्रन्दस्तननिगर्भमाधाबुदम्वदा परिचयारचेन सुपर्षविषिरन्यञ्चकम् समाभवन्तोदानि पादाः धामा हयते अजरवना वृष्टन्ति तव जादवे लो देवस्वधा मृदस्य धामा याश्च मायामायिनाम् विश्वमिन्वक्ते पूर्वे स्कन्दधुः पृष्टबन्धो नो वृष्टिम् वरुतोदरे ध्वम् प्रविन्वदविष्णो अश्वस्य धाराः अर्वाण्येतेनस्तनयत्रणे क्यपो निषिद्यन्नः किण्डन्त्यपो मरुदः सुदानवः पयो घृतवद्विदधे भुवः विनयन्ति भारिनमुत्सम् दुहन्ति स्थनयन् नवक्षितम् मरुदस्तागुम् यत्तवृष्टिर्ये विश्वे मरुतो जुनन्ति क्रोधा जिगर्दा गण्येव दुन्ना भेरुन्दिम् जानाभत्येव जाया द्या वा पृथिबी मधु नासमक्षतपयस्पदे कृणुता ववोषधीः पूर्त्यञ्चदत्र सुमजम् च बिन्बयत्रा न मरुदस्य मधु उदत्यम् चैत्राम् औरभृगवक्षुतिमप्लवा नवदाहुवे अग्निगुम्धमुद्रवाससम् आसवगुंसविदर्गथा भगस्येव भुजिगम्भुवे अग्निगुम्धमुद्रवाससम् उदेवादस्वनम् कविम् पर्जण्यक्रन्त्यकुंसः अग्निकुंसमुद्रवाससम् ओ यो वै पवमानानामन्वारोहान् विद्वान् जतनुपवमानानारोहजनपवमाने च्छते शेन गायत्र छन्दा नत्वारभे स्वस्तिमासं पारय सुवर्णाभित्रष्टप् छन्दानुत्वारभे स्वस्ति मासम् पारय सखा विजगति छन्दानुत्वारभ स्वस्ति मासम् पारयेत्याहैते वै पवमानानामन्वारोहास्तान्येवम् विद्वाने पवमानानारोहज पवमाने योगस्यज्यते योगै पवमानस्य सन्ततिम् वेदसर्वमायुरेतिनपुरायुष प्रमीयते कुसुमान् भवति बिन्दते प्रजाम् पवमानस्य ग्रहागृह्यन्ते अथवा अस्यैते गृहीतान् द्रोणकलशाधवनीयः पोदभृता यद् गृहेयाम् पवमानम् विक्षन्द्यात्तम् विच्छिद्यमानमध्वर्यः प्राणो न विच्छिद्येतोपयाम गृहीत प्रजापदये त्वेति द्रोणकलशमभिवृषे इन्द्राय त्वेत्याधवनीयं अवमानमेव तत्सन्तनादिसर्वमायुदेदिनपुरायुः प्रवीयते पशुमान् भवति विन्दते प्रजा ीनिवापसवनान्यशततीजकम् सवनमवलम् पञ्चनकं शुकुर्वन्दुपाकं सुकुं भक्तोपाकं सुपात्रेयकं सुमवास्यतृतेय सवने प्रकुं सुमद्यदभिषुणो दृतेनेवदत्सवनान्यकं सुमन्ति शुक्रवन्ति समावद्यैर्याणि परो समुद्रौ वित तावचोर्यौ पर्यावत्ते जठ ययोः पश्यन्तो अतियन्त्यन्यमपश्यन्तस्ते तुमातियञ्जन्यम् वे ग्रथसे सगते मष्टके कः के श्रीविश्वा भुवनानि विद्वान् शिरोधार्येत्यधिरम्बसानः शुक्रमा दत्ते अनुभारिधार्यै वै यद्यज्ञे कुर्वदुर्वदते देवायेतम् महायज्ञमपश्यन्तमदन्वदाग्निहोत्रम् प्रथम कुर्वदस्माद्दिव्रत स्याद्गृह्यग्निहोत्रम् जगुपदि पौर्णमासं यज्ञमग्ने सोमेयम् रसम कुर्वदधा यज्ञमाग्नेयम् प्रशम कुर्वद वैष्वदेवम् प्रातः सवनम कुर्वद वरुणप्रघाधा माभ्यन्तिकमेधा यज्ञन्त्रम् वृगागस्तृतीयसवमे शामसुरारिक्यमन्वमाजिकार्कम् सन्तन्नान्वमायन्ते प्रबन्ध्वर्तव्या वा इमे देवा अभो पन्दि्वरस्याधरत्वन्ततो देवा अभवन्परासुराय एवम् विद्वान् सोमे न भवति परिभोरज्ञिम् परिभोरिन्द्रम् परिभोर्विश्वान् देवान् परिभोर्मागम् सह ब्रह्मवर्तते न सनः परः स्वशङ्केषम् जनायसौर्वदेशगो राजन्नोषधे अध्योच्छिन्नस्य ते रजपदे सुवैर्यस्य राजस्फोटस्य च वितारस्याम तस्य मेरा स्वरस्य च भक्षी गतस्य च इदमन्मृजे प्राणाय मे वर्चोदा वर्चसे पवस्वापानाय भ्यानाय भाचे नक्षकृभ्याम् चक्षद्भ्याम् मे वर्चोदो वर्चसे पवेथा विश्रोत्रायात्मनाम् जेभ्य आयुषे वीर्याय विष्णोरिन्द्रस्य विश्वेषाम् देवाना जठनमसि वर्चोदा मे वर्चसे पवस्वकोऽसिको नाम कस्मै पाप मे नामदगुम् सुप्रजाः प्रजया भूयाशगुम् सुवीरो वीरैश्ववर्तावत्य सा सुपोषः पोषेर्विश्वेभ्र मे रूपेभ्यो वर्चो तावत्य शैवस्य मे रास्वरस्य भूषण्णदेक्ष देशवै मात्रियः प्रजापदल्यज्ञः प्रजापदिस्तमेव दत्पयत् सजेन दत्तो भूत्याभिभवदे ब्रह्मवर्तस काम वेक्ष देशवै मात्र्यः प्रजापदल यज्ञः प्रजापदिस्तमेव दत्पयत् सजनम् दत्तो ब्रह्म वर्ततेनाभिभवद आमयाव्यवेक्ष देशवै मात्र्यः प्रजापदल यज्ञः प्रजापतिस्तमेव दत्पयत् दत्त आयुषाभिरोधवेत्रयः प्रजापतिर्यज्ञः प्रजापतिस्तमेव प्रजा दर्पय दशेन दत्तः प्राणाबाणाभ्याम् वाचो दक्षक्रतुभ्याम् चक्षुर्भ्या ग्रोत्राभ्यामात्मनोङ्गेऽभ्यायुषोङ्करे प्रथम्बते स्वस्त्यर्वे घनः स्वस्त्यः पर सर्वे जः यज्ञिया यज्ञकृतस्थज मास्मिनि यज्ञमुपह्वयध्वमुपमा द्यावाजिवेजेतामुपास्तावः कलश सोमो अग्निरुपदेवा उपयज्ञमुपमाहोत्रा उपहवेक्ष्वयम् धान्नमोऽग्नख्ने मखस्य मायसोर्गादित्याहवनीयमुपतिष्ठदे यज्ञो वै मखो यज्ञम् वामसदहन्तस्मा वे वनमस्कृत्यसदः प्रथप्रतात्मनो खघ्ने माहेत्याघ्नेत्य खग्नैन्द्रियं मे वीर्यं मा निर्वधेरिहोत्रेयमाश मे मे दामाशास्त्रेन्द्रियस्तवीर्यस्यानिर्घाता जया मे देवधासदस्यार्तिमात्पयम् जयस्ता विद्वान् र्च्छदिन मार्गे मर्धयित्वार्तिमार्पयन् विनाय एवं विद्वान् पृथर्पदिनसदस्यार्तिमार्च्छदि समेते मायुं हतस्पादगुं सोऽ मा देवो दिव्यादगुं हतस्पाद वायुनन्दनक्षादज्ञः पृथिव्यायमः पृथ्यस्तरस्पदे मनुष्ये देव्ये भासन्तान्नभस्सर सेन भस्तरक्षुषे न पृथिव्या अहेदेशम् पादम् माद्या वा पृथिवी नद्यान् हस्तदो मे पृथक्पन्तम् पितरो न पृथक्पन्तितये न मेश्वराहि प्रसर्पदक्षिणार्थम् परे क्षेदागन्धमिदरः पितर्माणह युष्माभिर्भूयासम् सत्प्रदसोभयाजोऽयम् भूयास्तभ्यगवनमस्कृत्य सदः प्रसर्पत्यात्मनो ना भक्षे हिमाविषेऽध्यायप्राय सन्तनप्राय धाय स्तोषाय मत्से सुप्रजा स्वाये हि वसा पुरावसा प्रियो मे हृदास्य माहोऽभ्याकम् सङ्ख्यातम् नृदक्ष सन्तादेव सोम सुचक्षा अवख्येयम् मन्त्रा विभो व्यक्ते हि विश्वचर्शने शम्भोर्मयो स्वस्ति मा हरिवर्णप्रदरक्षत्रय रक्षाय राजस्तोषाय सुबीरतायै मा माजन्निपेभिषो मामे हार्दृत्विषापथे कृषणे सुष्मायायुषे वर्तसे वसुमद्गणस्य सोमदेवते मदिविदप्रादस्य वनस्य गायत्र छन्द सगेन्द्रबेदस्य नराशकं सपेदस्य पितृवेदस्य मधुमधौपहोदस्योपहूतो भक्षयामि रुद्रवद्गणस्य जगदीशन्द्रगेन्द्रपेदस्य पितृपेदस्य मधुमदपभूतस्योपभूतो भक्षयामि आप्यायस्व समयुत विश्वदस्त्वा भक्ष्मियम् महावाजस्य सङ्गते किन्ममेकात्रा हरिवो गणान् नेमावि तेदृशः समामे शिव मे सत्तेपति सामना गाम सौमृता भो मजो देवा किधोदर्त्यन्म आत्मनोदेधातनचक्रुरधात्मन बृहस्पति पुनर्मे अश्विना युवन्तक्षुदाधत्तमक्ष्योः तिष्टयजुषस्ते सोमस्तु तस्तोमस्त्यजस्तोक्षस्य हरिवद इन्द्रवेदस्य भक्षयामि आपोर्यास्थामापोरयत च धनेन च एतत्ते तथ जय छत्वामन्वेतत्ते पितामहप्रपितामहे छत्वामन्वत्रपितरो यथा भागम् वञ्च ध्वन्नमा भस्पितरो यथा जनमो भस्पितरः सुष्मा जनमो भस्पितरो जीवाजनमो भक्पितर स्वधायेतमा भक्वितरा मन्यवै नमो भस्पितरो घोराय पितरो नमो भोजयेतस्त्रिल्लोके स्थ युष्मागस्ते नृजेऽस्मिन्लोके देहाम् वसिष्ठा भूयास्तयेस्तम् लोकेऽहम् देहाम् वसिष्ठा भूया सम्प्रजापदेहत्वदेवान् निन्वा विश्वा जातानिपदितापभूयामास्तेजुमस्तन्नास्तु वयज्ञस्यामपदयोरयीनाम् देवकृदस्तेन सो वयज नमसि मनुष्यकृदस्तेन सो वयज नमसि सो वयज नमस्य भौतस्य गोमदेवतस्येष्टयजुषस्तुतस्त्वामस्य शस्त्वाक्षस्तिको भक्ष अश्वसर्गोक्तस्य देवदृभक् भक्षम् भक्षयामि मयीनाम् पयोजविश्वेधाम् देवानाम् तनोमद्यपृषतेनाम् ग्रहम् पृषदेनाम् ग्रहो जविष्टो हृदयमस्त्य क्रमिशविष्टस्तान विनक्रमे भोजर्दध्रा हृदेन वर्धतान् तस्तमेष्टस्तवेदस्य द्रविणमागम्याज्योतिर्भयेष्वानरम् पृष्टये दुग्धै यावते द्यावापृेव हित्वा यावच्च सप्तसिन्धवो विदस्थुः तावन्तमिन्द्रजयग्रहकम् सहोर्जागृह्णाम्यस्तजम् यत्कृष्टस गुणः पृषदाज्य मम मृजे क्षोद्रा अस्य प्रमायुगात् स यस्य पृषदा जज्ञस्कन्ध जयत्पृषदाज्यं पुनर्गृह्णादिप्राणमेवा मे पुनर्गृह्णादि हिरण्यमवधाय गृह्णात्यमृतं मे हिरण्यं प्राणः कृषदाज्यमृतमेवास्य प्राणे तथा प्राणम् निर्मिमेते विवागे तस्य यज्ञच्छिद्यते यश्च पृथग्स्कन्ददि वैष्टव्यच्च पुनर्गृह्णादि यज्ञो नैवज्ञेनैव यज्ञकम् सन्तनाति ेव समित वेद ते प्राह तत्प्रज सुभप्रवेय बृहस्पदद्ब्रह्मायुष्मन्त्या ऋतो मार्गा तदनोपा साम्नः सत्याव आशिषः सन्तु सत्या आदूदय ऋतञ्ज सत्यञ्च वद स्तुत धेवस्य सवित न्तो वदामहे क्षेमहि प्रयामिषम् सा मे सत्याशे देवेषु भूयात् ब्रह्मवर्णसम् मागम् यात् यज्ञापभो भवसापभो भवस प्रजज्ञे समावृधे स एवानामधिपदर्पभो वसो अस्माकम् अधिपले करोतु यज्ञावा वै यज्ञपदे हे यज्ञपदर्वा यज्ञन्तु हेशयस्तु रस्रहर्दोऽहमविद्वानयज जेनै यज्ञाद हेतरेष्टा पापी यान् भवति गजेन योर्दोऽहम् विद्वानयज देशयिज्ञम् तु हेशयिष्टांसी स्य स्तुतङ्गम् न्याच्छस्त्रच्छस्त्रमस्योर्जम् वच्यकम् शस्त्रम् तु हा शस्त्रस्य शस्त्रङ्गम् व्यादित्याहैषवे स्तुत शस्त्रयोर्तो हस्त एवम् विद्वान् यजते दुहगेव यज्ञमिष्मावशीयान्भवति शयणाय पत्मने स्वाहा वक्षयमभिगोर्ता गणमोऽभिष्टम्भाग धर्मणे स्वाहा वत्क्षयमभिगोर्ता गणमः परिधये जनः प्रथ नाय स्वाहा वक्षयमभिगोर्ता गणमऊर्जे होत्रा नार्ग स्वाहा वक्षयमभिगोर्त्रा गणमः पयसे होत्रा नार्ग स्वाहा वत्क्षयमभिगोर्ता गणमः प्रजापदयनभे स्वाहा वत्क्षयमभिगोर्ता गणमृतमृमा सुवर्म म् पन्ता साधुः प्रजानुर्भक्तामधव्यधाभ्याकम् सृजत विश्वकर्माधोरास्तेभ्यः मनसश्च सन्धो गृहस्पदगेवमन्नमः नमः विश्वकर्मणस्मानन्यान् समपान् मन्यमानः प्राणस्य विद्वान्समरेण धीरगेणश्च कृपान्महि बद्धयेषाम् तम् विश्वकर्मन् प्रमम् च स्वस्तये ये भक्षयन्मो नव यानयोन्वदप्यन्तधृष्टया इयम् तेषामवया दृष्ट्ये सृष्टिन्नस्ताम् कृणो च विश्वकर्मा भ्यो अभिय अक्षण्यज्ञकृतो यज्ञकावास्तुवाग्रामा वो दक्षिणान्नवीणि ममा नस्त्वस्मादेन सह पापयिष्ट मे सदस्यास्ते सर्वे दक्षिण्यास्तेभ्यो यो दक्षिणाभ्यो निश्चेदयद्वे स्वकर्मणादिभ्यो विषदस्यामेव तत्प्रेया तस्मै देवासोपुषे चिकित्सदयमासिरा दम्पती वा मम स्तुतः पुमान् पुत्रो जायते विन्ददेवस्व सविश्व अलपागे धते गृहः आशीर्दाया दम्पते वाममश्नु वरिष्ठोरायस्य च तागुम् समवकषा याशि अच्छम् कुम्भ्या सहेष्टेन या मन्नमचिञ्जहादुसः पेवनि यस्य जायापेवानः पुत्रा अकृशासो अस्य सहजा नियस्व कस्य नोज्ञ मुदसप्रजास्त्वमिषन्द्रसा दुद्रविनगम् समर्गसम् सञ्जयम् सा। क्षेत्राणि सहसाहमिन्द्रकम् वा नो अन्याकम् अधरान् समर्नान् ुलमसि भूते माधा मुखमसि मुखम् भूयासन्त्या वा पृथिवेभ्याम् परिगृह्णामि विश्वे त्वा देवाभेश्वानरा प्रत्यागयन्ति जिविदेवान् जगम्हान्तरे क्षेमयागम् च पृथिव्याम् पार्थिताम् ध्रुवाध्रुवेण हविषामसोमन् नयामसि यथा नः सर्वमित्यगत यक्ष्मकम् सुमनासरे यथानगिंद्रग्द कबले सर्वास्मस यथान सर्वा यदास्मा केबले र यद्वैहोतायदेवज्रमेण प्रादस्सवनं पृजेन्यत्रेण्यक्षाणि त्रिपदा गायत्रै गायत्रं प्राधस्वनं गायत्रियैव प्राधस्वने वज्रमं च धत्तं वाचेत्याहमाध्यन्ति नगेर्यत्वान्यैतान्यक्षराष्पदाध्यन्ति न ज्रमन्तर्धत्ते ब्रह्मवादिना वदन्ति सत्त्वार्यश्च योगसा सवनम् प्रतिगले चन्द्रागम् वादय तेजः प्रादस्त्वन्ते प्रादस्सवनं प्रतिगेर्यत्रेणक्षरायत्री यत्र गायत्रं प्रादस्सनं प्रादस्य वन एव प्रतिघटे चन्द्रागं सम्पादयत्र शोतेजोबै गायत्री तेजः प्रादस्य वनं तेज एव प्रादस्य वन आत्वन् धत्तमुखं वा त्याह माभ्यन्तिनकुम् सवनम् प्रतिगे दत्वादेतान्यक्षराणि कृतस्पदाेष्टभम् माभ्यन्तिनकुम् सवनम् माभ्यन्तिनगेव सवने प्रतिगले शन्दाकम् सम्पादयत्र स्व इन्द्रियम् मे ृष्टगन्दियम्भ्यन्तिरं सवनमिन्द्रियमेव माभ्यन्ति मे सवन आत्मन्धक्तं वाजेन्द्रायेत्यापदाशत्व जागदं तृतीयनं मृतेरसवन एव प्रतिगरे चन्द्रागं पादयत्य स पशभो वे जगति पशवस्तृतेयसवनं पशोनेपतृतेजसमन आत्मन्धत्ते यद्वै ध्वर्यमध्याप्त आव्यमस्मिन् दधाति तद्यन्नापहमेत पुरा प्रत्यायदेते यथा समर्चते तादृगैव तद्यदर्थ ृगेव तत्प्रवाहुग् ऋत्विजामुद्गेथामुद्गेथगेव प्रणवमुक्तसकुंशिनाम् प्रतिगाद्धरियों विद्वान् प्रतिघृणाच्चादैव भवत्याश्च प्रजायां भागे जायत इयं वैभवताजा यदा से न श्यगं सत्यस्या नैवता नैत्यास्तम् प्रतिघृणात्यमुष्यायैव देवक्यदामसो अमुमेव ते न यजमानो तु हे यदाशिनश्यगंसदितस्मादिदः प्रदानम् देवा उपजीवन्ति यत्तिष्ठन् प्रतिघृणादितस्मादमुदः प्रदानम् मनुष्या उपजीवन्ति प्रत्यङ्गम् प्रति गृह्णाति तस्मात् कार्यतोऽधीयते प्रतीतेय प्रजायन्ते यद्वे होदा धैर्यमभ्यात्मय देवद्रवेणमभिप्रवर्तयति पदावत्त देवद्रमे सन्निकरोति याम गृहेतो विवाक्षसदशिवाक्त्वाभ्याम् त्वा कृत्वा भ्यामस्तयज्ञस्य ध्रुवस्याध्यक्षाभ्याम् गृह्णाम् विपयाम गृहेतो श्रुत सदशिकृष्पाभ्याम् त्वा कृत्वा भ्यामस्तयज्ञस्य ध्रुवस्याध्यक्षाभ्याम् गृह्णाम् विपयाम गृहेतोऽभिश्रुत हस्तयैकस्य ध्रुवस्याध्यक्षाभ्याम् गृह्णामि देवे विश्व देवेभ्यत्वा विश्वेभ्यस्त्वा देवेभ्यो विष्णपुरक्रमेश देशमस्तगं रक्षस्पदन्ते धश्च क्षामा रक्षण्रो सर्वात्मा वाजम्मे पाहिमयिवसर्मिलद्वसश्चक्षुष्पाश्चक्षुर्मे पाहिम युवस्रमाश्चे पाहि धोरश्रेष्ठो रश्मीनां प्राणवास्प्राणं ी नामपानमापानम् मे पाहि यो न इन्द्रवायो मित्रावरुणा वस्मिनामभिजाभ्रादुर्व्यमुत्पिते तु भस्पति युदमहम् प्रमधरम् पादया वेदेहमुत्तमश्चेतयानि रतोग्नेतवोचिभिः सुवीराभिस्तर दिवाजकर्मभिः यस्यत्पुम् सख्यमा विथात्रे पूर्व्यम् वचोज्मये भरता बृहज भ्रदसे अग्नेत्रे देवादिनात्रे शस्था तिस्रस्ते जह्वारिजजातपून्मेः तिस्रौदेत नवो देवमातास्ताभिन्नः पाहि गिरो अप्रयुच्छन् सम्भाम् कर्म नाथविषाभिनोमीन्द्राविष्णो अपुरस्कारे अस्य यज्ञन्द्रविनम् च धमरिष्टेर्णः पतिः पारयन्त उमादिज्ञसर्णपराजिये छेदपराजिज्ञेकतरश्चनैना इन्द्रश्च विष्टा यदवस्पृधेथाम् त्रेधा सहस्रम् वितदैरयेथा एम् न्यायोगम् शितवजातवेजस्तिस्र आजानि अग्ने ताभिर्देवानामवो यक्ष विद्वानथा भवयजमानागज्योः अग्नस्त्रेण त्रिधातोऽन्याक्षेतथा कविः शर्त्रेकं रेखादशा दक्षत्र विप्रयजनो विप्रो दोतः परिष्कृतः नभम् रामन्यके समे इन्द्राविष्णोदृगुम् हिताः शम्बरस्य नवपुरो हस्रम् च साकम् हतो प्रत्यसरस्य उत माता विषमन्वेन दमीत्वा जहति पुत्रदेवाः अथवेत्तमिन्द्रोह यश्याम् सखे वृष्णोऽपि तरम् विक्रमस्व ओ ग्ने तेजस्मिन् तेजस्मे त्वं देवेषु भोजास्तेजस्पन्दम् मामायुष्पन्दम् वत्यस्पन्दम् मनुष्येषु गुरदेक्षाये जत्वातपदश्च तेजसेजो हो विजेजो विजश तेजो मामाहाजे माहं तेजोहायुषं मामां तेजोहासे इन्द्रोजस्मिन्नोजस्मे त्वं देवेषु भोजा वोजस्पन्दम् मामायुष्पन्तं वत्यस्पन्दम् मनुश्चेषु गुरब्रह्म क्षत्रस्य चौजसे गृहो्यज विषस्य जासे मा जहाषम् मामो सौर्यभ्राजस्मिन्भ्राजस्मेन्त्वन्देवेषु भूयाभ्राजस्पन्दम् मा भायुष्पन्दम् वक्स्पन्दम् गुरुष्टेषु गुरुभागोश्च त्वापान्तभ्राजसेजुभोपि सुवर्विदसिवर् मामाहासेन् माहम् सुवरहासिनम् माभागम् सुवरहासेन्मयि मेधां मयि प्रजाम् मयि यज्ञस्तेजो दधातु मयि यसोर्यभ्राजो दधादो वायुरृहम् कर्ता ज्ञः प्रस्तोता प्रजापदः सा मृहस्पतिनुद्घाता स्वे देवा उपगातारो मरुदः देवा प्राणभृतः प्राणं मयुधत्वे तद्वे सर्वमध्वर्यरुण्यो गातृभ्य उपाकरोणभृतः प्राणं मयुधत्वित्या हैतदेव सर्वमात्वन्ध्वयिणा देव यज्ञलेर्बृहस्पदरुक्षापदानि सकं स्वे देवायः पृथिवीमा मधुमनिष्ये मधुजनिष्ये मधुमक्ष्यामि मधुवदिष्यामि मधुमदेयम् देवेभ्यो वाचमुद्याजगम् सश्रोषेण्याम् मनुष्येभ्यस्तम् मा देवाः वन्तु सौभाग्यै वितरानुमदन्तु स्वात् प्रबुहन्द्वियत्रेण छन्दसा प्रियम्पा समुपेश रुद्रा स्वात् माध्ये च गौहासु शकरे च शुक्रासु ते शुक्र शुक्रमाधो नामि शुक्रन्ते शुक्रेण गण्हाम् जह्ना रूपेण सूर्यस्य नश्मिः आस्मिन्नुग्राजिच्यवर्दिबो धारा असष्टतागुहगौ लोकम् वृषभस्य राजे बृहत् स्वामस्य पुरोगा शुक्र शुक्रस्य पुरोगा यत्ते सोमादाभ्यन्नामजागृहस्मै ते सोमसोमा यस्पाहोऽषि देवसोमगा यत्रेण छन्दसाग्ने प्रियम् पाथोऽपि हि वसि त्वम् देवसोमत्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथोऽपि यस्पश्च त्वम् देवसोमजागतेन छन्दसा विस्मेषाम् देवानाम् प्रियम् पासोऽपि ज्ञानः क्षाद्दिवस्पदे आयुपृथिव्याध्यमृतमधि प्राणाय त्वा इन्द्राग्ने मे वर्चकृताम् वर्चस्वा बृहस्पतिः वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना दन्मे वाय देव नवोद ब्रह्माधिमे ऋतदे अधि विश्वाधिका व्याहेमिश्रक्रमि एतद्वापान्नामधेयम् गुत्यञ्जदा पा मान्दासुते शुक्रशुक्रमाधो नामेत्याहापामेव नामधेयेन गुहत्येन ना ना दिवो वृष्टिमवरन्धे शुक्रन्दे शुक्रेण गृह्णामीत्याहैतद्वा अह्नो रूपेण शून्यस्य रस्पभिर्दिव वृष्टिञ्चावयत्यास्मिन्नुग्राजित्यव त्याहयथा युजदेवेदत्कभगुं रूपं वृषभस्य लोचने बृहजित्या हैतद्वा अस्त्यं रोपै यद्वृष्टे रूपेणैव वृष्टिमवन्धे यत्ते सोमादा आभ्यङ्गमदाभिवेत्या हैष हवैहविषा हविर्गज द्वियोदा आभ्यङ्गहेत्वा सोमायजुहोदिपदावागेतस्याय प्राणवे द्वियोगुं सङ्गृह्णान् जानः प्राणवेदुपदापदगित्य युरेव प्राणमात्मन्धत्ते मृदमधिप्राणायत्वे नि हिरण्यमभिव्यनत्यमृतं वै हिरण्यमाय प्राणो मृदे नैवायुहात्मन्धत्ते नमानं भवति सदायः पुरुष सतेन्द्रियायुष्येवेन्द्रिये प्रतिष्ठत्यबुपस्पृशति हेशयं वा आवो भे कुरुते वायुरसि प्राणो नाम सुवितुराधिपत्ये बाणम् मेधाश्चक्षुरधिश्रोत्रम् नाम धातुराधिपत्य आयम् मेधालोपमशिवर्णो नाम बृहस्पदेनाधिपत्ये प्रजाम् मेधा हृतमधि सत्यम् नामेम् धस्याधिपत्यै क्षत्रम् मेधा भोजमविभव्यम् नाम पुतृणामाधिपत्ये पामोषधीना ृदस्यत्वा व्योमन ऋदस्यत्वा विभोमन ऋदस्य त्वा विधर्म यस्य प्रजापदर्भिराजमपश्यक्तया भूतञ्च भव्यं चिरोदधाया वेशप्रश्ने प्रश्नेनाम् पृश्यक्तन्ते प्रश्नेनैव णो नामे त्याः प्राणा वा नामे वाक्रन्नामे वरुन्ध रूपमशिपन्नामे चाह प्रजामेवा वरुन्धरितमधित्रन्नामे क्षत्रमेवा वरुन्ध भोतमसि भव्यन्नामे वामोधीनां गर्भः पशुमेवा वरुन्धयेतावद्वे पुरुणां भजधस्तदेवावरुन्धरि तस्य त्वा व्योमनमित्याहेयं वारदस्य व्योमे वामेवाभिजयप्रदस्य कापि भोमनमित्याहा म्बारदस्य विभोभाण्डलक्षमेवाभिजयत् ऋस्यत्वाभिधर्म जगित्या हद्यौर्वाहृतस्य विधर्मजपमेवाभिजयत् ऋस्यत्वा सत्यायेत्या हदिशो भारतस्य सत्यं दिशगेवाभिजयत् ऋदस्यत्वा विराडन्नम् विराट् विराट् जवान्नाद्य प्रतिष्ठते देवावयेके नावुन्धर तत्परे नमारुन्धर तत्पराणाम् परत्वम् यत्परे गृत्यन्ते यदेव यज्ञेन नावरुन्धे तस्यावरुद्धेयम् प्रथमम् गृह्णातिमेव तेन लोकमभिजयति यन् द्वितीयमञ्जरे ग्रन्थेण यम् तृतीय मम लोकमभिजयति यदेते गृत्यन्त येषाम् लोकानामभिजित्या उत्तरे स्पः लोकान् पुनरिमन् लोकम् प्रत्यपरोहन् जयत्वराञ्च घृक्यन्तेतस्मादितः पराञ्च इमे लोकायुत्तरेषः समुर्वाञ्च गृह्यन्ते तस्मादमुधौर्वाञ्च इमे न लोकान् मनुष्या उपजीवन्त्य ब्रह्मवादिनो वदन्ति सम्भवन्त्यौषधयो महर्ष्या नाम प्रजापतिम् प्रजा न प्रजायन् दयति पदानन् विज प्रोज यद्ग्रह्णाद्योषधे प्रजापदये गृह्णामे तस्मात् प्रजापदिम् प्रजा अनुप्रजायन्ते प्रजापदेवन सृजत तनु यज्ञा सृजत यज्ञच्छन्दाकं सिते विष्पञ्जोऽव्यक्रामान् स्वसुधानज्ञोपा मद्यज्ञन्दाकम् सिते देवा अमञ्जन् धामेव इदम भूवद्वयज्ञस्मयधिते प्रजापदिमुपाधामान् सोऽ प्रजापदि छन्दसाम् वेदिकमालाय तः प्रदामेन्दसाम् वेद यतेभ्यप्रायच्छत्तदमच्छन्दायस्य क्रावछन्दागुंसतो देवा अभवन्परा सुधायगे पञ्च्छन्दसां वीर्यम् वेदाश्रावयास्तुश्रौषब्दे कामहे भवत्यात्मना परास्य भ्रातव्यो भवति ब्रह्मवादिना वदन्ति कस्मैकवद्भर्यधा श्रावयते रिच्छन्दसां वीर्याय जोजा वेद न्दसां वीर्यमाश्राभयास्तुश्रौषण्डे गामहे मष्कारो य एवं वेदस वीर्यैरेव यत्किञ्चाद्यन्द्र वृत्तमहन्न मेद्यन्तव्यज्यते न पाव मेद्यन्तरशकस्माधेन्द्रो यज्ञाशग्रस्था गो यत्याहुरिन्द्रपा एषा यज्ञयातज्ञस्ता मे पद्यजन्ति य एवं and yet your name is